तेन नर्तनु वेषेण अपुंस्त्वेन तथैव वर्षमेकं विहृत्यैव ततः पुंस्त्वमवाप्स्यसि एवमुक्तस्तु शक्रेण फाल्गुनः परवीरः मुदं परमिकां लेभे न च शापं व्यचिन्तयत् चित्रसेनेन सहितो गन्धर्वेण यशस्विना रेमे स स्वर्गभवने पाण्डुपुत्रो धनञ्जयः इदं यशृणुयाद्वृत्तं नित्यम् पाण्डुसु तस्य वै न तस्य कामेषु पापकेषु प्रवर्तते ममरवरात्मजस्य घोरं शुचिचरितं विनिशम्य फाल्गुणस्य व्यपगतमदम्भरागदोषास्त्रिदिवगता विरमन्ति मानवेन्द्राः इति श्रीमहाभारते वनपर्वणि इन्द्रलोकाभिगमनपर्वणि ऊर्वशीशापो नाम षड् चत्वारिंशोऽध्यायः